पञ्चाशः सर्गः सन्दीप्यमानाम् वित्रस्ताम् त्रस्तरक्षोगणाम् पुरीम् अवेक्ष्य हनुमान् लङ्काम् चिन्तयामासवानरः तस्या भूत्सु महाम् स्त्रासः कुत्सा चात्मन्यजायत लङ्काम् प्रदहता कर्म किम् मया धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम् निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा क्रुद्धः पापम् न कुर्यात् कः क्रुद्धो हन्याद्गुरूनपि क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् वाच्या वाच्यम् प्रकपितो न विजानाति नाकार्यमस्ति क्रुद्धस्य नावाच्यम् विद्यते क्वचित् यः समुत्पतितम् क्रोधम् क्षमयैव निरस्यति यथोरगस्त्व चञ्जीर्णाम् स पुरुष उच्यते धिगस्तु माम् सुदुर्बुद्धिम् निर्लज्जम् पापकृत्तमम् अचिन्तयित्वा ताम् सीतामग्निदम् यदि दग्धा त्वयम् जानकी दग्धातेन मया भर्तुर्हतम् कार्यमजानत यदर्थमयमारम्भस्तत्कार्यमवसादितम् मया हि दहतालङ्काम् न सीता परिरक्षिता ईषत्कार्यमिदम् कार्यम् कृतमासीन्न संशयः तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः विनष्टा जानकी व्यक्तम् लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी यदि तद्विहतं कार्यम् मया प्रज्ञा विपर्ययात् इहैव प्राणसन्न्यासो ममापि ह्यद्य रोचते किमग्नौ निपताम् यद्य आहोस्विद्वणवा मुखे शरीरमिह सत्त्वानाम् दद्मिसागरवासिनाम् कथम् शक्यो मया द्रष्टुम् हरीश्वरः तौवा वा पुरुषशार्दूलौ कार्य सर्वस्वघातिना मया खलु तदेवेदम् रोष दोषात् प्रदर्शितम् प्रथितम् त्रिषु लोकेषु कपित्वमनवस्थितम् मया सीतानरक्षिता विनष्टायाम् तु सीतायाम् तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः धर्मात्मा सह शत्रुघ्नः कथम् शक्ष्यति जीवितुम् इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः रोषदोषपरीतात्मा व्यक्तम् लोकविनाशनः इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत् अथ वाचारु सर्वाङ्गी रक्षिता स्वेन तेजसा न न शिष्यति कल्याणी नाग्यरग्नौ प्रवर्तते स्वचरित्राभिगुप्ताम् ताम् स्प्रष्टुमर्हति पावकः नूनम् रामप्रभावेण वैदेह्या सुकृतेन यन्माम् दहनकर्मायम् नादहद्धव्यवाहनः त्रयाणाम् भरतादीनाम् भ्रातॄणाम् देवताचया चया रामस्य च मनः कान्ता सा सर्वत्र प्रभुरव्ययः न मेदहतिलाङ्गोलम् कथमार्याम् प्रधक्ष्यति पुनश्चाचिन्तयत्तत्र हनूमान् विस्मितस्तदा हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि असौ शुश्रावहनुमांस्तत्र चारणानाम् महात्मना अहो खलु कृतम् कर्म दुर्विगाहम् हनूमता अग्निम् विसृजता तीक्ष्णम् भीमम् राक्षसद्मनी प्रपलायित रक्षस्त्री बालवृद्धसमाकुला जनकोलाहलाध्माता क्रन्दन्ती वा द्रिकन्दरैः दग्धेयम् नगरी जानकी न च दग्धेति विस्मयोऽद्भुत एव नः इति शुश्राव वा हनुमान् वाचम् ताममृतोपमा बभूवचास्य मनसो हर्षस्तत्कालसम्भवः सनिमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ततः कविः प्राप्तमनोरथार्थस्तामक्षताम् प्रत्यक्षतस्ताम् पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिम् चकार इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्च